वैशम्पायनवाच तं कृष्णः प्रत्युवाचेदं बहुक्त्वा गुणविस्तरं त्वमेव राजशार्दूला साम्राडर्हो महा यजस्वाभीप्सितं यज्ञं मयि सफलः कृष्णसङ्कल्पः सिद्धिश्च नियता मम यस्यमेत्तं हृषीकेश यथेप्सितमुपस्थितः वैशंपायनवाचा अनुज्ञातस्तु कृष्णेना पाण्डवो भ्रातृभिः सह ईजितुं राजसूयेन साधनान्युपचक्रमे